त्रिंशोऽध्यायः सौतिरुवाच स्पृष्टमात्रा तु पद्भ्याम् बलीयसा अभज्य तरोः शाखा भग्नाम् चैनामधारयत् ताम् भङ्क्त्वा स महा शाखाम् स्मयमानो विलोकयन् अथाऽत्र लम्बतो पश्यद्वालखिल्यान् अधोमुखान् ऋषयोः यत्र न खैर्दृढतरम् वीरः सङ्गृह्य गज कच्छपौ स तद्विनाश सन्त्रासादभिपत्य खगाधिपः शाखामास्येन जग्राह तेषामेवान्ववेक्षया अधिदैवम् तु तत्तस्य कर्म दृष्ट्वा महर्षयः विस्मयोत्कम्प हृदया नाम दयार्थम् वालखिल्यानाम् न च स्थानमविन्दत स गत्वा पर्वतश्रेष्ठम् गन्धमादनमञ्जसा ददर्श कश्यपम् तत्र पितरम् तपसि स्थितम् ददर्शतम् पिता चापि दिव्यरूपम् विहङ्गमम् मनो मारुतरम्हसम् शैलशृङ्ग प्रतीकाशम् ब्रह्मदण्डमिवोद्यतम् अचिन्त्यमनभिध्येयम् सर्वभूत भयङ्करम् महावीर्यधनम् अप्रधृष्यमजेयञ्च देवदानव राक्षसैः भेत्तारम् गिरिशृङ्गाणाम् समुद्रजलशोषणम् लोकसंलोडनम् घोरम् कृतान्तसमदर्शनम् तमागतमभिप्रेक्ष्य भगवान् कश्यपस्तदा विदित्वा चास्य सङ्कल्पमिदम् वचनमब्रवीत् कश्यप उवाच पुत्रमासाहसम् कार्षीर्मासद्यो लप्स्य सेव्यथाम् सौतिरुवाच ततः प्रसादया कश्यपः पुत्र कारणात् वालखिल्यान् महाभागान्स्तपसाहत कल्मषान् कश्यपोवाच प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः चिकीर्ष्यति महत्कर्म तदनु ज्ञातुमर्हत सौतिरुवाच एवमुक्ता भगवता मुनयस्ते समभ्ययुः मुक्त्वा शाखाम् गिरिम् पुण्यम् हिमवन्तम् तपोर्धिनः ततस्तेष्वपया तेषु पितरम् विनता सुतः भगवन् क्व विमुञ्चामि तरोः शाखामि मामहम् वर्जितम् मानुषैर्देशमाख्यातु भगवान् मम ततो निःपुरुषम् शैलं हिम संरुद्ध कन्दरम् अगम्यम् मनसाप्यन्यैस्तस्या च ख्यौ स कश्यपः तम् पर्वतम् शाखिनो महतीम् शाखाम् याम् प्रगृह्य सततः शतसाहस्रम् योजनान्तरमागतः कालेन नाति महता गरुडः पतकेश्वर क्षणेनैव पर्वतम् वचनात् पितुः अमुञ्चन् महतीम् तत्र खेचर पक्षानि लहतश्चास्य प्राकम् मुमोच पुष्पवर्षम् समागलितपादपः शृङ्गाणि च व्यशैर्यन्त गिरेस्तस्य समन्ततः मणिकाञ्चन शोभयन्ति महागिरिम् शाखिनो बहवश्चापि शाखयाभिहतास्तया काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः ते हेम विकचा भूमौ युताः पर्वत धातुभिः विराजन् शाखिनस्तत्र सूर्यांशु ततस्तस्य गिरे शृङ्गमास्थाय भक्षयामास गरुडस्तावुभौ गज तावुभौ भक्षयित्वा तु सतार्क्षः कूर्म कुञ्जरौ प्रावर्तन्ताथ देवानामुत्पाता भयशंसिनः इन्द्रस्य वज्रम् दयितम् प्रज्ज्वालभयात्ततः स धूमान्यपतत्सार्चिर्दिवोल्का नभसश्च्युता तथा वसूनाम् रुद्राणामादित्यानाम् च सर्वशः साध्यानाम् मरुताम् चैव देवतागणाः स्वम् स्वम् प्रहरणम् तेषाम् परस्परमुपाद्रवत् अभूतपूर्वम् सङ्ग्रामे तदा देवासुरेऽपि च वपुर्वाताः स निर्घाताः निरभ्रमेव चाकाशम् प्रजगर्ज महास्वनम् देवानामपि यो देवः सोऽप्यवर्षतशोणितम् मम्लुर्माल्यानि देवानाम् नेषु स्तेजांसि चैव हि उत्पातमेघा रौद्राश्च ववृषुः न च शत्रुम् प्रपश्यामि युधियो नः प्रदर्शयेत् बृहस्पतिर्वाच तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो तपसा वालखिल्यानाम् महर्षीणाम् महात्मनाम् कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः हर्तुम् सोममभिप्राप्तो बलवान् कामरूप धृक् समर्थो बलिनाम् श्रेष्ठो हर्तुम् सोमम् विहङ्गमः सर्वम् सम्भावयाम् यस्मिन्न साध्यमपि साधयेत् सौतिर्वाच श्रुत्वैतद्वचनम् शक्रः प्रोवाचामृत रक्षिणः महावीर्य बलः पक्षी हर्तुम् सोममिहोद्यत युष्मान् सम्बोधयाम्येष यथा न स हरेद्बलात् अतुलम् हि बलम् तस्य बृहस्पतिरुवाचः तच्छ्रुत्वा विबुधा वाक्यम् विस्मिता यत्नमास्थिताः परिवार्यामृतम् तस्थुर्वज्री धारयन्तो विचित्राणि काञ्चनानि मनस्विनः कवचानि महार्हाणि वैदूर्य च चर्माण्यपि च गात्रेषु भानुमन्ति दृढानि च विविधानि च शस्त्राणि घोररूपाण्यनेक च शिततीक्ष्णाग्रधाराणि सुरोत्तमाः सविस्फुलिङ्ग ज्वालानि सधूमानि च सर्वश्च चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान् शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान् स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः तैः दिव्याभरणभूषिताः भानुमन्तः सुरगणास्तस्थुर्विगत कल्मषाः अनुपमबलवीर्य तेजसो धृत मनसः परिरक्षणे मृतस्य असुरपुर विदारणाः सुरा ज्वलन इति समरवरम् सुराः स्थितास्ते परिघ सहस्र शतैः बभासे इति श्री महाभारते आदि पर्वणि